ततः प्रत्यक्षतो दृष्ट्वा पक्षिनस्ते समीपगाः निजघ्नुस्तम् तदाहंसं हंसम् मिथ्या वृत्तम् कुरुद्वः ते त्वाम् हंस धर्माणमपि मे वसुधाधिपाः निहन्युर्भीष्मसङ्क्रुद्धाः पक्षिणस्तम् यथाण्डजम् गाथामप्यत्र ये पुराणविदो जनाः भीष्म यां ताञ्चते सम्यक् कथयिष्यामि भारत अन्तरात्मन्यभिहते रौषिपत्ररथाशुचि अण्डभक्षणकर्मैतत्तव वाचमतीयते इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि शिशुपालवाक्ये एकचत्वारिंशोऽध्यायः